नारदपुराणं पूर्वार्थम् अध्यायं तटितु सनक उवाच एवं कर्म पाश नियन्त्रितजन्तव स्वर्गादिपुण्यस्थानेषु पुण्यभोगमनुभूय यादीवदुःखधरं पापफलमनुभूय प्रक्षिणकर्माविशेषेणामुम् सर्वभय सर्वभयविह्वलेषु मृत्युबाधा संयुतेषु स्थावरादिषु जायते वृक्ष गुल्मलतावल्ली गिरयश्च तृणानि च स्थावरा यदि विख्यादा महामोह समावृताः स्थावरत्वे पृथिव्यामुत् पक्बीजानि जलसेकानुपदं सुसंस्कारसामग्रीवशादन्त कृष्मप्रपाचितान्युच्छूनत्वमापद्य ततो मूलभावं तन्मूलादुरोत्पक्तेस्तस्मादपि पर्ण पाण्डनालाधिकं काण्डेषु च प्रसवमापद्यन्ते तेषु च पुष्पसम्भवः तानि पुष्पाणि कानिचिदफलानि कानिचित् फलहेतुभूतानि तेषु पुष्पेषु वृद्धभावेषु सत्सु तत्पुष्पमूलतस्तुषोत्पत्तिर्जायते तेषु तु सुभोक्तॄणां प्राणिनां संस्कारसामग्रीवशामरश्मिकरणासन्नतया तदोश्रिरसस्तु शान्तः प्रविश्य क्षीरभावं समेत्य स्वकाले तण्डुलाकारतामुपगम्यप्राणिनां भोगसंस्कारवशात् संवत्सरे फलिनस्युः स्तवरत्वेऽपि बहुकालं वानरादिभिर्भुज्यमानाहि चेदनदवाग्निदहनशीता तपादि दुःखमनुभूयं म्रियते ततश्चकृयो भूत्वा सा सदा दुःखबहुलाः क्षणार्थं जीवन्तः णार्धं म्रियमाणा बलवत्प्राणिपीडायां निवारयितुमक्षमाशीदवादादिक्लशभूयिष्ठनित्यं क्षुधा क्षुधिता मलमूत्राशि सञ्चरदो दुःखमनुभवन्ति तदेव पद्मयोनिमागत्य बलवद्वाग्धोद्वे द्वेजिता वृद्धोद्वेगभूयिष्ठाः सुक्शान्ता नित्यं वनचारिणो माधृष्वपि विषयादुरवदादिक्लेशबहुलाः कस्मिंश्चिज्जन्मनि तृणाशना कस्मिंश्चिज्जन्मनि मां सा मेध्याद्य धनाः कस्मिंश्चिज्जन्मनि कन्दमूलफला दुर्बलप्राणिपीडानिरदा दुःखमनुभवति अण्डत्वेऽपि बादाश्च नामांसामेध्याद्यशनाश्च परपीडापरायणा नित्यं दुःखबहुला ग्राम्य पशुयोनिमगदा अपि स्वजातिवियोगभारोद्वहनपाशादिबन्धनताडनफलादिधारणादि सर्वदुःखान्यनुभवन्ति एवं बहुयोनिषु सम्भ्रान्ताः क्रमेण मानुषं जन्म प्राप्नुवन्ति केचिच्च पुण्यविशेषाद्युत्क्रमेणापि मनुष्य जन्माश्नुवदे मनुष्यजन्मनापि चर्मकारचण्डालव्याधानापि दरचककुम्भकारलोहकारस्वर्णकारतन्तुवाच शौचि कजडिलसिद्धधावकलेखकभृदकशासन हारिणी च बृददुःख बहुलज्वरदाप शेद स्वयष्मघुल्म पदाक्षि शिरोगर्भपार्श्ववेदनादिदुःखमनुभवति मनुष्यत्वेऽपि यदा स्त्रीपुरुषयोर्व्यवायस्तत् समये रेदो यदा जरायुं प्रविशति तदैव कर्म वशात् जन्तुशुक्रेण सह जरायुं प्रविशुक्रोनिधकले प्रवर्तते तद्वीर्यं जीवप्रवेशात् पञ्चाहात् कललं भवति अर्धमासे फलवलभावमुपेत्य मासे प्रादेशमात्रत्वमापद्यते ततः प्रभृति वायुवशाचैतन्याभावेऽपि माधुरुह्ये दुःसहतापक्लेश तयैकत्रस्तादुमशक्यत्वाद्भ्रमति मासे द्वितीये पूर्णे पुरुषाकारमात्रतामुपगमय मासत्रितये पूर्णे करचरणाद्यवयवभावमुपगम्य चतुर्षु मासेषु गदेषु सर्वावयवानां सन्धिभेदपरिज्ञानं पञ्चस्वतीतेषु नखा नाम खा नामभिव्यञ्जककदा षटस्वतीतेषु नख सन्धि परिस्फुटतामुपगम्य नाभिसूत्रेण पुष्यमाणममेध्यमूत्रसिक्ताङ्गम् जरायुणा बन्धितरक्तास्ति कृमिवसा मज्जास्नायु केशादि दूषिदे कुत्सिदे शरीरे निवासिनं स्वयमप्येवं परि दूषिददेहमधुश्च कड्वाम्लवणात्युष्णभुक्तदह्यमात्मानं दृष्ट्वा देहि भावात् पूर्वजन्मस्मरणानुभावात् पूर्वानुभूधनरकदुःखानि च स्मृत्वान्तर्दुःखेन च परिदह्यमानो माधर्देहादिमूत्रादिरुक्षेण दह्यमान एवं मनसि प्रलयति अहोत्यन्तपापोऽहम् पूर्वजन्म निभृत्यापत्य मित्र योषित् गृहक्षेत्रधनधान्यादिष्वत्यन्तरागेण कलत्र पोषणार्थं परधनक्षेत्रादिकं पश्यदो हरणाद्युपायैरपहृत्य कामान्ततया परस्त्रीहरणादिकमनुभूय महापापान्याचरंस्तैः पापैरहमेक एवंविधनरकान्ननुभूय पुनस्तावरादिषु महादुःखमनुभूय सम्प्रति जरायुणा परिवेष्टितोन्तर्दुःखेन बहिस्तापेन च दह्यामि मया प्रोषिदाधाराश्च स्वकर्म वशादन्यदो गदाः अहो दुःखं हि देहिनां देहस्तु पापाः सञ्जातस्तस्मात् पापं न कारयेद भृत्यभिष्ट्रकलत्रार्ध मन्यद्रव्यं हृदं मया तेन पापेन दह्यामि जरायुपरिवेष्टितः दृष्ट्वान्यस्य श्रियं पूर्वं सतपोऽहमसूययाखितः गर्भाग्निनानुदह्येयमिदानीमपि पापकृद कायेन मनसा वाचा परपीडामकारिष्मतेन पापेन दह्यामि त्वह मे कोदिदुःखितः एवं बहुविद्धं गर्भस्थो जन्तुर्विलप्य स्वयमेव वा आत्मानमाश्वास्य उत्पत्तेरनन्तरम् सत्संगेन सत्सङ्गेन विष्णोश्चरित्रश्रवणेन च विशुद्धमना भूत्वा सत्कर्माणि निर्वर्त्य अखिलजगदन्धरात्मनः सत्यज्ञानानन्दमयस्य शक्तिप्रभावानुष्ठितविष्टपवर्गस्य लक्ष्मीपदेर्नारायणस्य शकल राक्षस पन्नग सकलसुरासुर यक्षंधर राक्षसन्नग मुनिकिर समूहाचित चरणकमलयुगम भक्द सामभ्यर्च्य दुस्सह संसारेदस्यूत वेद रोप निषद्भि परिस्फुटं सकललोकपरायणं हृदि निधाय दुःखधरमिमं संस्कारागारमधिक्रमिष्यामेधि मनसि भावयति यदस्तन्मादुप्रसूतिसमये सति गर्भस्थो देहि नारदमुने वायुना परिपीडितो माधुश्चापि दुःखं कुर्वन् कर्मपाशेन बलाद्योनि मार्गान्निष्क्रामन् सकलयादनाभोगमेककालभवमनुभवति त्यनादिक्लेशेन योनि यन्त्रपीडितो गर्भान्निष्कान्दो निःसंज्ञतां याधि तं तु बाह्यवायुत्समुज्जीवयदि बाह्यवायुस्पर्श समनन्तरमेव नष्टस्मृतिपूर्वानुभूता किल दुःखानि वर्तमानान्यज्ञाना भावदविज्ञायान्त्यन्ददुःखमनुभवति एवं बालत्वमापन्नो जन्दो स्वमलमूत्रलित्पदेह अध्यात्मिकादिपीड्यमानोऽपि वक्तुमशक्तस्तक् म मा वक्तुमशक्तक्षुतृशापीडितो हृदिदे सदि स्थानाधिकं देयमिति मन्वाना प्रयतन्ते दे। एवमनेकं देहभोगमन्याधीनतयानुभूयमानो दंशादिष्वपि निवारयितुमशक्तः बाल्यभावमासाध्यमादापित्रोरुपाध्यायस्य ताडनं सदा पर्यटनशीलत्वं पांशु भस्म पङ्गादिषु क्रीडनं सदा कलह नियतत्वाशुचित्वं बहुव्यापाराभासकार्यनियतत्वं तदसम्भव आध्यात्मिकदुःखमेवं विधमनुभवति तदस्तु तरुणभावेन धनार्जनमर्जितस्य रक्षणं तस्य नाशव्ययादिषु चात्यन्तदुःखिता मायया मोहिताः कामक्रोधादि दुष्टमनसाः सदासूया परायणाः परस्वपरस्त्री हरणोपायपरायणाः पुत्रमित्रकलत्रादिभरणोपाय चिन्तापरायणा वृद्धाहङ्कारदूषिताः पुत्रादिषु व्याधा वा व्याध्यादि पीडितेषु सत्सु सर्वव्याप्रिं परित्यज्य रोगादिभिक्लेशितानां समीपे स्वयमाध्यात्मिकदुःखेन परिप्लुता वक्ष्यमाणप्रकारेण चिदामश्नुवते गृहक्षेत्रादिकं कम किञ्चिन्नापि विचारितं समृद्धस्य कुटुम्बस्य कथं भवति वर्तनं मम मूलधनं नास्ति वृष्टिश्चापि न वर्षति अश्वः पलायितः कुत्र गाव किं नागदा मम बालापत्या च मे च निर्धनः अविचार कृषिर्नष्टा पुत्रा नित्यं रुदन्ति भग्नं चिह्नं तु मे सत्मबान्धवा अपि दूरकाखा न लभ्यते वर्तनं च राजबाधादिदुःसहा रिपवो माम् प्रधावन्दे कथं ज्येष्ठाम्यहं रिपुवन् व्यवसायाक्षमश्चासम् प्राप्ता प्राकुर्नका अमी एवमत्यन्तचिन्ताकुलस्वदुःखानि निवारयितुमक्षमो द्विग्विधं भाग्यहीनं मां किमर्धं विदधे दैवमाक्षिपति तथा वृद्धत्वमापन्नो हीयमानसारो जराफलितादिव्यात्पदेहो व्याधिबाध्यत्वादिकमापन्नः लोला लोलाविलोचन श्वेष्मन्यात्पकण्ठः पुत्रदारादिभिर्भर्ष्यमानः कदा मरणमुपयामीदि चिन्ताकुलो मयि मृदे सदि मदर्जितं गृहक्षेत्रादिकं वस्तु पुत्रा दह्यकथं रक्षन्ति कस्य वा भविष्यति मधने परैरवहृदे पुत्रादीनां कथं वर्तनं भविष्यतीति मम दा दुःखपरिप्लुतो गाढं निःश्वस्य स्वेन वयसा कृतानि कर्माणि पुनः पुनः स्मरन् क्षणे विस्मरति ज सन्ततस्त्वा क्षणं शय्यायां क्षणं मञ्चेजस्ततः पर्यटन् क्षुतृढपरिपूरितः किं चिन्मात्रमुदगं देहीत्यधिकार्पण्येन याचमानस्तत्रापि ज्वराविष्टानामुदगं न श्रेयस्करमिति ब्रुवधो मनसादिद्वेषम् कुर्वन्मन्द चैतन्यो भवति ततश्च हस्तपादाकर्षणे न दुःक्षमो रुद्रभिबन्धुजनैर्वेष्टितो वक्तुमक्षमः स्वार्जितधनाधिकं कस्य भविष्यतीति चिन्तापरो बाष्पाविलविलोचनकण्ठे गुरु कुर् रायमाणे सदि शरीरा निष्क्रान्तप्राणो यमदुदैर्भर्श्यमानपाशयन्द्रितो नरकादीन् पूर्ववदश्नु हामलप्रक्षया यद्वद्वनघ्याम् अमलप्रक्षयाद्यद्वदग्नौ धाम्यं दि धादवः तथैव जीविन सर्व आकर्मप्रक्षयाद् दृश्यं तस्मात् संसारदावाग्नितापार्थोद्विजसत्तम अभ्यसेत् परमं ज्ञानं ज्ञानान् मोक्षम ज्ञानशून्यानरायेदुपशवः परिकीर्तिताः तस्मात् संसारमोक्षाय परं ज्ञानं समभ्यसेद मानुष्यं चैव सर्वकर्मप्रसाधकं हरिं न सेवधेयस्तु अहो चित्रमहो चित्रमहो चित्रं मुनीश्वराः आस्तिदे कामदे विष्णो नरा यान्ति यादनं नारायणे जगन्नाथे सर्वकामफलप्रदे स्थिते विज्ञानरहिताः पच्यन्ते नरकेष्वः स्तवन्मोत्र पुरीषे दुशरीरेऽस्मिन्नृशाश्व शाश्वतं भाव्यं त्यज्ञा महामोह समावृताः कुत्सितं मांसरक्दाद्यायुर्देहं सम्प्राप्य यो नरः संसारचेदकं विष्णुं न भजेत्सोधिपादकी अहो कष्टमहो कष्टमहो कष्टं हि मूर्खदा हरिध्यानवरो विप्रचण्डालोऽपि महासुखीं स्वदेहान्निसृतं दृष्ट्वा मलमूत्रादि किल्बिषन् उद्वेगमानवामूर्खा किं न यान्तिः तापि नः दुर्लभमानुषं जन्म प्रार्थ्यते त्रि तल्लब्ध्वा परलोकार्थं यत्नं कुर्याद्विचक्षणः अध्यात्मज्ञानसम्पन्ना हरिपूजा परायणाः लभन्ते परमं स्थानं पुनरावृत्तिदुर्लभं यतो जातमिदं विश्वं यतश्चैतन्यमश्नुते यस्मिंश्च विलयं यादि स संसारस्य निर्गुणोऽपि परोनन्दो गुणवानिवभादियः तं समभ्यर्च्य देवेशं संसारात् परिमुच्यते दे इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भवाढवी निरूपणं नाम ओ um...